मुद्गलपुराणं खण्डं नयन् योगचरितम् अध्यायं ट्वेन्टि टु माघपारायणचरितवर्णनं श्रीगणेशाय नमः सूत उवाच क्षत्रियो माधवः मालवे सम्बभूवः अवन्दिनगरीपालस्वधर्मनिरतः सदा ताम्भोजकर्णको राजा तत्र युद्धार्थमाययौ चित्वा भूपमवन्द्यां वैराज्यं चक्रे स हर्षितः स्रीकपुत्र संयुक्तप्रधानैर्वीरमुख्यकैः बभ्रामसवने राजा यत्र तत्र सुदुःखितः ततो महावनं विरोधदर्शव्याघ्रसंयुधम् नाना पशुयुधं तत्र प्रविवेश सुदुःखितः दृष्ट्वा मुनिवरं तत्र कश्यपं सर्वदायकं प्रणनाम ससाष्टाङ्गं स रुरोदहि विह्वलः तं तथा दुःखसंयुक्तं दृष्ट्वा पप्रचकश्यपः जगादस यथापूर्ववृत्तान्तं शोकसङ्कुलः ततस्तं कश्यपप्राह मा गुरुत्वमहीपदे चिन्तां शृणुस्व प्रापकं तत् समीपे माकमासस्समागतश्च शृणुष्व तद् मौद्गलं सिद्धिदं पारायणं पूर्णं करोम्यहं तस्य तद्वचनं श्रुत्वा हर्षयुक्तश्च माधवः सर्वैः स्थितस्तत्र पुराणश्रवणायसः तथा मुनिगणाद्यांश्च श्रवणार्थं समागतान् क्षत्रियाद्यान् सतान् दृष्ट्वा हर्षयुक्तो बभूवः विनायकं प्रतिपदि तदा पूज्यमः मुनिः उपोषणसमायुक्तशुक्ले स्त्रीभिः समारभद पारायणौद्गलस्य मण्डपे विधिसंयुधः भक्तियुक्तो महायोगी कश्यपः सर्वतत्त्वविद तत्र चित्रं समुत्पन्नं तच्छृणुष्व महामुने न कुलो भूमिः संस्तश्च शुश्रावभयसङ्कुलः अकस्माद्दुःखसंयुक्तो ममारसचकाणपाः आययुस्थान् समालोक्य मुनिः पप्रच्च कश्यपः कश्यप उवाच किमर्थमागतानाधा कार्यं वदत चोत्तमं वयं दासा गणेशस्य करिष्यामो जवान्विदाः कश्यपश्यप च श्रुत्वा जगुस्थं गणपप्रियाः न कुलं तु मृतं नेतुं समागताः पारायणस्य विप्रेष मौद्गलस्याधुना द्विज अध्यायसंश्रुतपूर्णो ज्ञानदो नकुलेन ना वै द्वितीयेऽत्र समारब्धे ज्वरेण बहुपीडितः मृदोऽधुना ब्रह्मभूतं करिष्यामो वयं किल मौद्गनं सिद्धितं पूर्णं श्रुतं तेन महात्मना अन्ते तेन प्रभावेण जानीहि मुनिसत्तमा तेषां वचनमाकर्ण्य कस्य पस्सर्वसंयुतः विस्मितस्तान् प्रणम्यैव पारायणपरो भवत् गणेशानकुलं गृह्य ययुस्वानन्तकं पुरं गणेश्वरं तत्र दृष्ट्वा ब्रह्मभूतो भूवसः चतुर्भिर्दिवशाः परायणं योगी महामतिः कृत्वा समाप्तं विघ्नेशं पूजयामास यत्नतः तदस्सपरणं चक्रे पञ्चम्यां सर्वसंयुतः षष्ट्यां स्वं स्वं स्थलं जग्मुर्ब्राह्मणाद्या महामुने माधवस्तं प्रणम्यादौ प्रधानादिभिरावृदः निर्जगामतसोऽपि महाराष्ट्रं समाययौ तत्र तस्य सख राजा भद्रगोबलसंयुतः राज्यं चकारदेशस्य स्वकीयस्य महाबलः तेन सार्धं पुनः सोऽपि माधवशस्त्रधारकः सैन्येन संयुधक्रुद्धसङ्ग्रामाय समाययौ गणेशं मनसि स्मृत्वा कश्यपं स्वगुरुं परं जिज्ञे काम्बोजराजं तं युद्धं कृत्वा सुदारुणं पपालभयसंयुक्तो भवत्कर्णः पराजितः माधव स्वस्य राज्यं तु चकारस सुहृद्गणः भोगान्नाविधन् राजा बुभुजे पुत्रपौत्रवान् गणेशमजन मऊदल तथा शुणोद अन्दे जगाम विघ्नशम ब्रह्मीभूद बभूव पारायण से संस्रावहात्म्यातनाजना प्रसिद्धि प्राप्त न शकते वक्त के को सं मऊद्गलश्रवे न वी ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्म उद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे माकपारायणचरितवर्णनं नाम द्वाविंशोऽध्यायः ओम्